अथ सप्त पञ्चाशत् सर्गः ततः सन्तप्तहृदयस्मरन्निग्रहमात्मनः विनिश्वस्य विनिश्वस्य कृतवैरो महात्मना सदक्षिणाम् दिशम् गत्वा महिष्यासह राघवा ततापपरमङ्घोरम् विश्वामित्रो महातपाः फलमूलाश नोदान्तश्चचारपरमन्तपः अथास्य जज्ञिरे पुत्राः सद्यधर्मपरायणाः हरिष्पन्दो मधुष्पन्दो दृढनेत्रो महारथः पूर्णे वर्षसहस्रे तु ब्रह्मालोकपितामहः अब्रवीन्मधुरम् वाक्यम् विश्वामित्रम् तपोधनम् जिता राजर्षि लोकास्ते तपसा कुशिकात्मजा अनेन तपसा त्वाम् हि राजर्षिरिति एवमुक्त्वा महातेजा जगामसहदैव तैः त्रिविष्टपम् ब्रह्मलोकम् लोकानाम् परमेश्वरः विश्वामित्रोऽपि तच्छ्रुत्वा ह्रिया किञ्चिदवाङ्मुखः दुःखेन महताविष्टः समन्युरिदमब्रवीत् तपश्च सुमहत्तप्तम् राजर्षरिति माम् विदुः देवाः सर्षिगणाः सर्वे नास्ति मन्ये तपःफलम् एवन्निश्चित्य मनसा भूय एव महातपाः तपश्चचारधर्मात्मा काकुत्स्थपरमात्मवान् एतस्मिन्नेव काले तु सत्यवादीजितेन्द्रियः त्रिशङ्कुरिति विख्यात इक्ष्वाकुकुलवर्धनः तस्य बुद्धिः समुत्पन्ना यजेयमिति गच्छेयम् स्वशरीरेण देवतानाम् पराम् गतिम् वसिष्ठम् स समाहूय कथयामास अशक्यमिति चाप्युक्तो वसिष्ठेन महात्मना प्रत्याख्यातो वसिष्ठेन स ययो दक्षिणाम् दिशम् ततस्तत्कर्मसिद्ध्यर्थम् पुत्रांस्तस्य गतो नृपः वासिष्ठा दीर्घतपधस्तपो यत्र हि तेऽपि रे त्रिशङ्कस्त्वमहातेजाः शतम् परमभास्वरम् वसिष्ठपुत्रान् ददृशे तप्यमानान् मनस्विनः सोऽभिगम्य महात्मानः सर्वानेव गुरोः सुतान् अभिवाद्यानुपूर्वेण क्रिया किञ्चिदवाङ्मुखः अब्रवीत्स महात्मानः सर्वानेव कृताञ्जलिः शरणम् वः प्रपन्नोऽहम् शरण्याञ्छरणम् गतः प्रत्याख्यातो हि भद्रम् वो वसिष्ठेन महात्मना यष्टु कामो महायज्ञम् गुरुपुत्रानहम् सर्वान् नमस्कृत्य प्रसादये शिरसा प्रणतो याचे ब्राह्मणान्स्तरसि स्थितान् तेमां माम् भवन्तः सिद्ध्यर्थम् याजयन्तु समाहिताः स शरीरो यथाहम् वै देवलोकमवाप्नुयाम् प्रत्याख्यातोऽवधिष्ठेन गतिमन्यान्तपोधनाः गुरुपुत्रान् ऋते सर्वान्नाहम् पश्यामि काञ्चन इक्ष्वाकूणाम् हि सर्वेषाम् पुरोधाः परमागतिः तस्मादनन्तरम् सर्वे, परमा तस्मा सर्वे भवन्तो दैवतम् मम इत्यार्षे श्रीमद् रामायणे आदिकाव्ये बालकाण्डे सप्तपञ्चाशः सर्गः